श्रीहरये नमः अत अष्टात्रिंशोऽध्यायः श्रीसुकौ वाचा अक्रूरोऽपि च तां रात्रिं मधुपुर्या महामतिः उक्षित्वा रतमास्ताय प्रययो नन्दगोकुलं गच्छन् पतिमकाभागो भगवती अम्बुजेक्षणे भक्तिं परामुपगत एवमेतत् अचिन्तयेत् किं मया चरितं बत्रं किं तप्तं परमं तपः किं वा ताप्यर्कते दत्तं यद्र क्ष्यां यद्ध्य केशवम् ममैतत् दुर्लभम् अन्यवु तमश्लोकदर्शनं विषयात्मनो यथा शूद्रजन्मनः मैवं ममातमस्य पि स्यादेव अच्युतदर्शनं क्रियमाणः कला नद्या क्वचित्तरति कश्चन नष्टं पलवांश्चैव मे भव यन्नमस्य भगवतो योगित्येयाङ्ग्रिपङ्गजम् कम्सो द्रक्ष्येन्द्रिपद्मप्रहितो मुना हरेः कृतावतारस्य तुरत्ययम् तमः पूर्वे तरन्यन्नकमण्डलद्विषा यतर्चितम् ब्रह्म भवातिपि शुरैः श्रिया च गोचारणायानुचरैश्चरत्वने यद्गोपिकानां द्रक्ष्यामि द्रक्षामिनूनं सुखपोलनाशिकं स्मिताबलोकारुणकञ्जलोचनं मुखं मुकुन्दस्य कुडालकावृतं प्रचरन्ति वै अभ्यत्य विष्णोर्मनुजत्वं ईयुषो भारवाधारय भुभो निजैश्चया लावण्यतां नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसादृशः यईक्षिताकं रहितोऽप्यसत्सतो स्वदे च स्वमाययात्मन्रचितैस्तदीक्षया प्राणाक्षदीपे सधनेक्ष्वपीयते यस्या किला मी वहभिस्सुमङ्गलैर्वचो विमिश्र गुणकर्म जन्मभिः प्राणन्ति यास्तद्विरक्ता शवशोभनामताः स चावतीर् यशो वितन् वन्व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलं त्वं त्वद्यनूनं महतां गतिं गुरुं त्रैलोक्यकान्तं धृशिमन्महोत्सवं रूपं दधानं शियईप्सिदास्पदं द्रक्ष्ये ममासनोषसक्सुदर्शनाः अथावरूढः सभतिशयोरथात् प्रधानपुंसोश्चरणं स्वलब्धये धिया धृतं योगिभिरप्यकं ध्रुवं नमः आभ्यां च सखिन्वनौकसः अभ्यङ्घ्रिमूले पतितस्य मे विभुः शिरश्य हसा प्रो द्वे जितानां समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्र ज्येन्द्रतां यद्वा विहारे व्रजयोषितां शमं स्पर्शेन सौ गन्धिकगन्त्यपानुध कंसस्य दोतः प्रहितोऽपि योऽन्तर्भगिश्चेतस एतदीहितं क्षेत्रज्ञयीषत्यमलेन चक्षुषान् अभ्यङ्क्रिमूलेवहितं कृताञ्जलिं मामीक्षिता सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते तमाम् आत्मा कीतीर्तिक्रियते तथैव मे बन्तश्च कर्मात्मक उच्छ्वसित्यतः लब्धाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्षते क्रोरत तेषु रुश्रवाक तदा वयं जन्मभृतो न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्यमुपेक्षये वा तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रुतोऽर्थधहान् किञ्चाग्रजो मा वनतं यधूतमः स्मयन्परिष्वज्यगृहीतमञ्जलो गृहं प्रवेश्याप्त समस्तसत्कृतं संप्रक्षते कं सकृतं स्वभं दुषो इति सञ्चिन्त्यन् कृष्णं स्वपल्कतनयो ध्वनि रतेन गोकुलं प्राप्त सूर्यश्चातिगिरिं नृप पतानि तस्या किल लोकबाल किरीडजुष्टामलभाधरेण ददर्शण गोष्ठे क्षितिकौतुकानि विलक्षिदान्यवाङ् पुषाद्य तद्दर्शनाक्लात विवृत्त सम्भ्रम प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः रतादवस्कन्त्यसेष्व चेष्टितः प्रभो रमोऽन्यजांस्य गो इति देहम् पृथामि आनर्थो हि सन्देशात्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः दतर्श कृष्णं रामं च व्रजे गोदोहनं पीतनी भरदरौ। पीतनीलाम्भरदरौ शरदम्बुरुहेक्षणौ किशोरौ श्यामळस्वेतौ श्रीनिकेतौ बृहद्भुजौ सुमुखौ सुन्दरवरौ बालात्विरतविक्रमौ ध्वज व्रजाङ्कुशाम्भोजैश्चिञ्चिदैङ्घ्रिभिर्व्रजं शोपयन्तौ महात्मानौ अनुक्रोस्मि उदारुचिरक्रीटौ शक्विणौ वनमालिनौ पुण्यगन्तानुलिप्ताङ्गौ स्नातौ विरजवाससौ प्रधानपुरुषावाद्यौ जगद्धेतु जगत्पति अवतीर्णौ जगत्यर्ते स्वांसेन भल केशवौ दिशो वितिमिराराजन् कुर्वाणौ प्रभया स्वया यथा मारकतः शैलो रौभ्यश्च कनकाचितो रथ त्यशोग्रूरश्नेकविह्वलः पपातचरणोपान्ते दण्डवत् रामकृष्णयोः भगवद्दर्शनाक्लादबाष्पर्याकुलेक्षणः पुलकाचिदाङ्गौत्कण्ड्यात् स्वाज्ञानेनाशकनृप भगवान्स्तमभिप्रेत्य रदाङ्गाङ्कितपाणिना परिबेभ्युपाकृष्य प्रीतः प्रणतव कर्षणश्च प्रणतमुपगुह्यमकामनाख गृहीत्वा पाणिना पाणि अनयत्सानुजो गृहम् पृष्ट्वा तस्वागतं तस्मै निवेद्य च वरासन प्रशाल्य मधुपर्कार्कणमाहरत् निवेद्यघां चातितये संवाह्य शान्तमातृतः अन्नं बहुगुणं नित्यं श्रद्धयोपाहरद् विभुः तस्मै भुक्तव ते प्रीत्या रामः परमधर्मवेत् मुखवासैर्गन्तमाल्यैः परां प्रीतिं व्यधात् पुनः पप्रश्य सत्कृतं नन्दगतं धन्निरनुग्रहे कंसे जीवति धासार्कसौनपाला इवावयः यो बधीत् स्व स्व सुस्थोकान् रोशन्त्या वक्कुशलं विमृसामहे इत्थं सुनृत्तया वाचानन्देन सुसशुभाजितः अक्रूरपरिपृष्ठेन जगावत्त्वपरिश्रमम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्थे अक्रूरागमनं नाम अष्टोत्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज् की जय